बृहदारण्य उपनिषत् अध्यायं 6 ब्राह्मणं 4 ओ येषां वैभूतानां पृथिवी रसः पृथिव्या आपो वा मोषधय ओषधीनां पुष्पाणि पुष्पाणां फलानि फलानां पुरुषपुरुषस्य रेतः सह प्रजापदिरीक्षाञ्चक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति स्त्रियगुं ससृजेता गुं सृष्ट्वाध एव समुदपारयत्ते नैनामभ्यसृजत् तेदीपस्थो लोमे बर्फिचर्मा दिशवणे सब्ध मध्यतस्थ मुश्केयन वाजपेयेन यजमानस्य लोको भवदि तावानस्य लोको भवि तोको भव विद्वा नोपंचरत सागुदंध य इदमविद्वानधोपहासंचरत्यास्य स्त्रियः सुकृतं भृञ्चते ये दध्वस्म वै दद्विद्वानुद्दालक अरुणिराहै तद्धस्म वै तद्विद्वान्नागोमौद्गल्य आहैतद्धस्म वै तद्विद्वान्कुमारहारिद आह बहवो मर्याब्राह्मणायना निरिन्द्रिया वसुहृतोस्माल्लोकात् प्रयन्तीय इदमविद्वा द्वं शोधोपहासंचरन्तीति बहुवा इत द्वं सुप्तस्य वा जाग्रतो वा रेधस्कन्धति तदभिमृषेदनुवा मन्द्रयेद यन्मेद्यरेधपृथिवीमस्कांसीद्यदोषधीरप्यसरद्यदपः इदमघं तद्रेद आददे पुनर्मा मयित्विन्द्रियं पुनस्तेजपुनर्भगः पुनरग्निर्धिष्ण्या यथास्थानं कल्पन्तामित्यनामिघाङ्कुष्ठाभ्यामादायान्तरेण स् धनौ वा ब्रुवौ वा निमृज्यात् अध यद्युतग आत्मानं पश्येत्तदभिमन्त्रयेदमयि ये तेज इन्द्रिययशोद्रविणगुंसुकृतमिति श्रीर्हि वा येष शास्त्रीणा यन्मलोद्वासास्मान्मलोद्वाससयशस्विनीमभिक्रम्योपमन्त्रयेत् सा चेदस्मै न दद्यात् कामेन वक्रीणी पाणिना वोप हत्यादिक्रामेदिन्द्रियेण ते यस्य सा यस्य आदध इत्ययस्या एव भवति येशा सा चेदस्मै दद्यादिन्द्रियेण ते यशसा यश आ दधामीति यशस्विना वेव भवतः स या मिच्छेत्कामयेदमेति तस्यामर्थनिष्ठायमुखेन मुखगुं सन्धायोपस्तमस्या अभिमृश्य जवे दङ्गादङ्गात्सम्भवसि हृदया दधि जायसे स त्वमङ्गकषायोऽसि दिग्धविद्धमिव मादये मा ममो मयीति अधयामिच्छेन्न गर्भन् दधितेदि तस्यामर्थनिष्ठायमुखेन मुखगुंसन्ध्यायाभिप्राण्या वाण्यादिन्द्रियेण ते रेदसा रेद आदद इत्यरेदा एव भवति अध यामिच्छेद्दधिते तस्या मर्धन्निष्ठायमुखेन मुखगं सन्ध्याया पान्याभिप्राण्यादिन्द्रियेण ते रेधस रेध अदधामीति गर्भिण्येव भवति अध यस्य जायायै जारस्यार्थं चेद्विष्या धामपात्रेऽग्निमुपसमाधाय शरबर्हिस्तीर्त्वा तस्मिन्नेदा शरभृष्टिप्रतिलो मा सर्पिशाक्दा जुहुयान्मम समिद्धे कौशि प्राणपानौद आददेसाविधि मम पुत्र कौशिपुत्र पशुगुस्त आददेशाविधि मम समिद्धे हौषिरिष्टात् सुकृते द आदेष विधि मम समिद्धे हौशिराशापस काशौद आददेशा विधि स वा एष निरिन्द्रियो विसुकृतोऽस्माल्लोकात् प्रैति यमेवं विद्ब्राह्मण शपदि तस्मादेवं दारेण नोपहास मिच्छेदुदह्येवं वित्परो भवति अधयस्य जाया मार्तवं विन्द्रेत्यहङ्कगुंसेन बिभेदहदवासनयनां वृषलो न व्रीहीन वकादयेत सय इच्छेत्पुत्रो मे शुक्लो जायेदवेदमनुब्रुवीद सर्वमायुर्यादिति क्षीरौ धनं पाचयित्वा सर्पिष्मन्दमश्नीया तामीश्वरौ जनयित वै अथय इच्छेत्पुत्रो मे कपिलपिङ्गलो जायेद द्वौ वेदावनुब्रुवीद सर्वमायुर्यादिधि दध्योदनं पाजयित्वा सर्पिष्मन्दमश्नीयतामीश्वरौ जनयित वै अधय इच्छित्पुत्रो मे श्यामो लोहिताक्षो जायेदत्रीन्वेदाननुब्रुवीद सर्वमायुर्या दित्युदौदनं पाजयित्वा सर्पिष्मन्दमश्नि यातामीश्वरौ जनयित वै अध पण्डिता जायेदसर्वमायुर्यादिदि तिलौ पाजयित्वा सर्पिष्मन्दमस्नि यादामीश्वरौ जनयित वै अध पण्डितो विगीतसमितिङ्गमःशुश्रूषितां वाजं भाषिता जायेत सर्वान्वेदाननुब्रुवीद सर्वमायुर्यादिति माघुं सौदनं पजयित्वा सर्पिष्मन्दमश्नियादामीश्वरौ जनयित वा औक्षेण वार्षभेण वा अथाभिप्रादरे वस्ताली पाकावृताज्यं चेष्टित्वा स्थाली पाकस्योपघादं जुहोत्यग्नये स्वाहानुमदये स्वाहा, स्वाहा। देवाय सवित्रे सत्यप्रसवाय स्वाहेदि हुत्वोद्धृत्यप्राश्नादि प्राश्येदरस्याप्रयच्छति प्रक्षाल्यपाणि उदपात्रम् पूरयित्वा तेनैनान्त्रिरभ्युक्षत्युक्तिष्ठादो विश्वा वसोऽन्यामिच्छ प्रपूर्व्यागं संजायां पत्या सहेति अधैनामभिपद्यते मोहमस्मि स त्वगुं सा त्वमस्य मोहगं सामाह मस्मिक्त्वं द्यौरहं पृथिवी त्वं तावेहि सगुं रभावहैः सहरेदो दधावहै पुगुंसे पुत्राय वित्तय इति अथास्य ऊरो विहापयदिविजिही तान्द्यावापृथिवी इति तस्यामर्थन्निष्ठाय मुखेन मुखगुंसन्धायत्रिरेणामनुलोमामनुमाष्टि विष्णुर्योनिकल्पयदु त्वष्टारूपाणिपिगुंसतु आसिञ्चतु प्रजापतिर्धाता गर्भन् दधातुदे गर्भन्धेहि सिनी वालिगर्भन्धेहि पृधुष्टुके गर्भन्ते देवा गर्भं तेविनौ दवावा दत्ता पुष्करजौ हिणमयमश्विनौ गर्भगं हवा महे दशमे मासि सूतये। मासी गर्भा यदागर्भा पृथिवी यौरीद्रेण यदाग गर्भिणी वायोर्दिशा यथा गर्भयेवं एवं गर्भं दधामि ते सा विधि शोष्यन्ती मद्भिरभ्युक्षति यथा वायुः पुष्करिणीगुंसमिङ्ग यदि सर्वतः ये वादे गर्भयेचतु सहा वैदु जरायुणा इन्द्रस्यायं व्रजकृदस्सार्गलसपरिश्रयः तमींद्र निर्जहि गर्भेण सवरागुंसेदी ज्यादेक्मुसमयांगुसे पृषदाजगुंस पृषदाज्योपुहोस्म सहस्रम पुष्यास मेधमाने गृह अस्योपसन्ध्यां माच्छ्रैत्सीत् प्रजया च पशुभिश्च स्वाहा मयि प्राणागुस्त्वयि मनसा जुहोमि स्वाहा यत्कर्मणात्यरीरिचै यद्वान्यूनमिहाकरम् अग्निष्ठस्विष्ट कृद्विद्वान् स्विष्टगुम् सुहृतं करोधुन स्वाहेति अधास्य दक्षिणं कर्णमभिनिधाय वाग्वागिदि त्रिरथ जादरूपेण प्राशयदि भुस्ते दधामि भुवस्ते दधामि स्वस्थे दधामि भूर्भुवः स्वः सर्वं त्वयि दधामीति अथास्य नाम करोति वेदोऽसीदिति तदस्य तद्गुह्यमेव नाम भवति अधैनं मात्रे प्रदायस्तनं यस्ते स्तनशशयो यो मयो भूर्यो रत्नधा वसुविद्यसुदत्त्रः येन विश्वापुष्यसि वार्याणि सरस्वतितमिह धादवे करिति अधास्य मादरमभिमन्त्रयदे मैत्रा मैत्रावरुणि वीरे वीरमजीजनत जनत सात्वं वीरवधि भव यास्मन्वीरवधो कर दीदि तं वाग्येदमाहुरधिपिता बदा भूरधिपितामहो बदा भूःपरमाम्बद काष्ठां प्रापच्छ्रिया यशसा ब्रह्मवर्चसेन य एवं विदो ब्राह्मणस्य पुत्रो जायत इति यदि षष्ठोऽध्याये चतुर्थं ब्राह्मणम् बृहदारण्य उपनिषत् अध्यायं सिक्स् ब्राह्मणं फैव् अथवगुंशः पौधिमाशीपुत्रकात्यायनीपुत्रात् कात्यायनीपुत्रो गौतमीपुत्रात् गौतमीपुत्रो भारद्वाजीपुत्रात् भारद्वाजीपुत्रः पाराशरीपुत्रात् पाराशरीपुत्र औपस्वस्ति पुत्रा दौपस्वस्ति पुत्रः पाराशरीपुत्रात् पाराशरीपुत्र कात्यायनि पुत्रात् कात्यायनि पुत्र आलम्बीपुत्रा च वैयाद्रपदी पुत्राश्च वैयाद्रपदी पुत्रकाण् च कापि पुत्रा च कापी पुत्रः आत्रेयीपुत्रादात्रेयी पुत्रो गौतमीपुत्रात् गौतमी पुत्रो भारद्वाजीपुत्रात् भारद्वाजीपुत्रः पाराशरीपुत्रात् पराशरीपुत्रो पारा वात्सीपुत्राद्वात्सीपुत्रः पाराशरीपुत्रात् पाराशरीपुत्रो ुत्र द्वा पुत्रा द्वार पुत्र आर्तभांगी पुत्रादारतभागिपुत्र्षि पुत्राची पुत्र सांधदी पुत्रा सापुत्र आलम्बायनीपुत्र दालम्बायनीपुत्र आलम्बीपुत्र दालम्बीपुत्रो जयन्दीपुत्र जायन्तीपुत्रो माण्डूकायनीपुत्रान् माण्डूकायनीपुत्रो माण्डूगीपुत्रान् माण्डूगीपुत्रश्चाण्डिलीपुत्रश्चाण्डिलीपुत्रो राधितरिपुत्रो भालूकी पुत्र पुत्रा भालूकी पुत्रक्रौचिकी पुत्र्या क्रौचिकी पुत्रौ वैदृदी पुत्रा वैदृदी पुत्र कार्षकेयी पुत्रात्षकययी पुत्र प्राचीन योगी पुत्रा प्राचीनयोगी पुत्रः साञ्जीवी पुत्रात् साञ्जीवी पुत्रः प्राश्नीपुत्रा दासुरि वासिनः प्राश्नीपुत्र आसुरायणादासुरायण आसुरेरासुरिः याज्ञवल्क्याद्यात्मवल्क्य उद्दालकादुद्दालको रुणा धरुण उपवेशे रूपवेशि कृष्णे कृश्रीर्वाजश्रवसो वाजश्रवाजिह्वावधो बाध्योगो गो सिदाद्वार्षगणादसिदो वार्षगणो हारिदात् कश्यपाधरी धश्यप शिपक कश्यपाशिप कश्यप कश्यपा नैध्रुवे कश्यपो नैधुविर्वाचो वागा शुक्ला यजोगृषि वाजसने याज्ञवल्यनाख्याय समानमा साञ्जीवीपुत्र चाञ्जीवीपुत्रो माण्डुकायनेर्माण्डुकाय निर्माण्डव्यान् माण्डव्यकौत्सात् कौत्सो माहित्यैर् माहित्यर्वाम कक्षायणाद्वाम कक्षायण चाण्डिल्या चाण्डिल्यो वात्स्याद्वात्स्यकृश्रे कृश्रिर्यज्ञ वचसो राजस्तम्भायनाद्यज्ञवाजा राजस्तम्भायनस्तुरात् कावशेयास्तुरकावशेयः प्रजापदे प्रजापदे प्रजापदेर्ब्रह्मणो ब्रह्मस्वयम्भू ब्रह्मणे नमः यदि षष्ठोऽध्याये पञ्चमं ब्राह्मणम् इति बृहदारण्यकोपनिषदि षष्ठोऽध्यायः इति वाचसनेयके बृहत् आरण्यकोपनिषत्समाप्ता ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः